देव दानवगन्धर्वैः पिशाचोरग राक्षसैः मानुषैश्च समस्तैश्च अजेयः फाल्गुनो रणे तेन तत् खाण्डवम् जातवेदसे तरसा दर्शयित्वा शक्रम् देवगणैः लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् तेन महाराजा दुर्लभा देवतैरपि वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता अर्जुनस्यानुजो राजन् नकुलस्येति विश्रुतः दर्शनीयतमो लोके मूर्तिमानिव मन्मथः तस्यानुजो महातेजाः सह देव इति श्रुतः तेनाहम् प्रेषितो राजन् सह देवेन अहं घटोत्कचो नाम भीमसेन सुतो बली मम माता महाभागा हिडिम्बा नाम राक्षसी पार्थानामुपकारार्थं चरामि पृथिवीमिमाम् आसीत् पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे सन्दिदेश च स भ्रातॄन्करार्थं सर्वतो दिशम् वृष्णिवीरेण सहितः सन्धिदेशानुजान् नृपः उदिचीमर्जुनस्तूर्णम् करार्थम् समुपाययौ गत्वा शतसहस्राणि योजनानि महाबलः जित्वा सर्वान् नपान्युद्धे हत्वा च तरसा रत्नान्यादाय वैभृशम् अश्वांश्च विविधान् दिव्यान् सर्वानादाय फाल्गुनः धनं बहुविधं राजन् धर्मपुत्राय वै ददौ भीमसेनो हि राजेन्द्र जित्वा प्राचीम् दिशम् बलात् वशे महीपालान् पाण्डवाय धनम् ददौ दिशम् प्रतीचीं न कुलः प्रययौ तथा सह दिशं याम्याम् जित्वा सर्वान् महीक्षितः माम् सन्दिदेश राजेन्द्र परार्थमिह सत्कृतः पार्थानाम् चरितम् तुभ्यम् सङ्क्षेपात् समुदाहृतम् तमवेक्ष्य महाराजा धर्मराजम् युधिष्ठिरम् पावकम् राजसूयम् च भगवन्तम् हरिम् प्रभुम् एतानवेक्ष्य धर्मज्ञाकरम् वैशंपायच तेन तषित श्रुवा राक्षसेंद्रो विभीषण प्रीतिमाद्राज धर्मा सचिव सह सहाशासनम प्रीतिपूर्वकम तच्च कालकृत भीमानभ्यमत स प्रभु ततो ददौ विचित्राणि कम्मलानि कुथानि च दन्तकाञ्चनपर्यङ्कान् मणिहेम विचित्रितान् भूषणानि विचित्राणि महार्हाणि बहूनि च प्रवालानि च शुभ्राणि मणिंश्च विविधान् बहून् काञ्चनानि च भाण्डानि कलशानि घटानि च कटाहान्यपि द्रोण्यश्चैव सहस्रशः राजतानि च भाण्डानि चित्राणि च बहूनि च शस्त्राणि रुक्मचित्राणि मणिमुक्तैर्विचित्रितान् यज्ञस्य तोरणे युक्तान् ददौ तालांश्चतुर्दश रुक्मपङ्कजपुष्पाणि शिबिकामणिभूषिताः